हरि ओम् श्रीसीतारामचन्द्राभ्याम् नमः अथ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे सप्तविंशति अधिकशतसमत्सर अयोध्यायाम् श्रीरामस्य सत्कारासमायोजनम् श्रीरामम् प्रति उद्गन्तु मनसाम् सर्वेषाम् जनानाम् भर्तेन सह नन्दीग्रामे गमनम् श्रीरामस्य आगमनम् भर्तादिभित तस्य समागमः पुष्पकविमानस्य तेन कुबेर पार्श्वे प्रेषणम् च श्रुत्वा तु परमानन्दम् भरतः सत्यविक्रमः वृष्टमाज्ञा पयामास शत्रुघ्नम् परवीरः दैवतानि च सर्वाणि चैत्यादि नगरस्य च सुगन्धमाले वदत्री अर्चन्तु शुचयोनरः सूतास्तुती पुराणा सर्वे वैतालिका तथा सर्वे वादित्र कुशला गणिकाश्चैव सर्वशः राजदारा तथा मात्या सन्न्यासीनाङ्गनागणः ब्राह्मणाश्च स राजन्या त्रीणि मुख्या तथा गणाः अभि निर्यान्तु रामस्य द्रष्टुम् च भरतस्य मुखम् भरतस्यैव शत्रुघ्न परवीरः वित्तीर न एकसाहस्री चोदयामास भागशः समीकुरुत निम्नानि विषमाणि समानि च स्थानानि निरस्यन्ताम् नन्दे ग्रामादितः परम् सिञ्चन्तु पृथिवीम् कृत्नाम् हिमशीतेन वारिणा ततोभ्येव किरन् लाजे पुष्पै च सर्वतः समुश्रित पताकास्तु रक्षापूरवरोत्तमे शोभयन्तु च वैष्माणि सूर्यस्य उदयनम् प्रति श्रममुक्तपुष्पै च सुवर्णैः पञ्चवर्णकै राजमार्गम् असंवादम् किरन्तु शतशोनरः ततश्च शासनम् श्रुत्वा शत्रुघ्नस्य मुदान्वितः दृष्टि जयन्तो विजयः सिद्धार्थ चार्थसाधकः अशोको मन्त्रपालश्च सुमन्त्रे चापि निर्ययुः मत्तये नागसहस्रे च सध्वज सुविभूषितै अपरे हेमकक्षाभिः स्वगजाभि करेणुभि निर्ययुः तुर्गाक्रान्ता रथै च सोमहरसः शक्युष्टिपाशतानाम् सध्वजानाम् पताकिनाम् तुरगाणाम् सहस्रै च मुख्ये मुख्यतरन्वितैः पदातीनाम् सहस्रै च वीरा परिवृतायू ततोयानान्युपारुढा सर्वादशरसहस्रिय कौसल्याम् प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः कैकेय्या सर्वे नन्दे ग्रामम्पागमन् जियाति मुख्यै धर्मात्मा लेणी मुख्यै स नैम गङ्गमयि बाल्य मोदकहस्त्वे च मन्त्रिभिः भरतो वृतः शङ्खभैरी निनादै च बन्देभिश्चाभिनन्दितः आर्यपादो गृहीत्वा शिरसा धर्म कोविदः पाण्डुरम् क्षत्रमादाय शुक्लमाल्योपशोभितम् शुक्ले च बालव्यजने राजा श्रुत्वा तत्पूर्वम् हर्षमागतः प्रत्युद्ययो यदा महात्मा सचिवैः सह अश्वानां खुरुशब्दै च रतनेमिहिस्वनेन च शङ्खदुन्दुभिनादेन सञ्चचालेव मेदिनी गजानाम् बृंहित चापि शङ्खदुन्दुभि निः स्वनै कृष्णम् तु नगरम् तत्तु नन्दे ग्राममुपागमात् समीक्ष्य भरतो वाक्यम् वाचे पवनात्मजम् कश्चिन्न खलु क्वापि सेव्यते चलचित्तथा न हि पश्यामि काकुत्थम् रामम् आर्यम् परन्तमम् कश्चिन्न चानुदृश्यन्ते कपयः कामरूपिणः अथैव मुक्ते वचने हनुमान् निदमब्रवीत् अर्थम् विज्ञापयन्नेव भरतम् सत्यविक्रमम् सदाफलान् कुसुमिताम् वृक्षान् प्राप्य मधुस्रवान् भरद्वाज प्रसादेन मत्त भ्रमरनादितान् तस्य चैववरोधस्थो वासवेन परन्तप ससैन्यस्य तथातिथ्यम् कुटम् सर्वगुणान्वितं निस्वन श्रूयते भेव प्रवृष्ठानाम् वनोकसाम् मन्ये वा नरसेनासा नदी तरति गोमतिम् रजो वर्षम् समुद्भूतम् पश्ये सालवनम् प्रति मन्ये सालवनम् रम्यम् लोलयन्ती प्लवङ्गमः तदेत दृश्यते दूरात् विमानम् चन्द्रसन्निभम् विमानम् पुष्पकम् मनसा ब्रह्म रावणं, रावणम् बान्धवै साधम् हत्वा लब्धम् महात्मना तरुणादित्य सङ्काशम् विमानम् रामवाहनम् धनदस्य प्रसादेन दिव्यम् एतन्मनोजवम् एतस्मिन् भ्रातुरो वीरो वैदेह्या रागवो, राघवो सुग्रीवश्च महातेजा राक्षसश्च विभीषणः ततो ह समुद्भूतो निस्वनो दिवमस्पृश स्त्रीबालयुव वृद्धानाम् रामोऽयम् इति कीर्तिते रथकुञ्जरवाजिभ्यः देवतीर्य महिम् गतः ददृशुस्तम् विमानस्थम् नरा भूत्वा प्रविष्टो राघवोन्मुख ययार्थे नार्घ्यपाद्याद्यै ततो रामं अपूजयत् मनसः ब्रह्मणा सृष्टि विमाने भरताग्रजः रराजे पृथि दीर्घाक्षो वज्रपारि पाणिरिवामरः ततो विमानाग्रगतम् भरतो भ्रातरं तदा वन्दे प्रणतो रामम् मेरुस्थम् इव भास्करम् ततो रामाभ्यनुज्ञातम् तद्विमानम् अनोत्तमम् औसंयुक्तम् महावेगम् निपत महीतलम् आरोपितो विमानम् तत् भरतः सत्यविक्रमः रामम् आसाद्य मुदित पुनरेवाभ्यवादयेत् तं समुत्थाय चिरस्याखि पथं गतम् अङ्के भरतमारोप्य मुदितः परिषश्वजे ततो लक्ष्मणमासाद्य वैदेहिं च परन्तप अथाभ्ये प्रीतो भरतो नाम चाब्रवीत् सुग्रीवं केके के पुत्रो जाम्बवन्तम् अथगदम् मन्दं च द्विविधम् वृषभम् चैव सस्वजे सुषेणम् च गवाक्षं चैव गवाक्षम् गन्धमादनम् शरभम् पनसम् चैव परितः परिषस्वजे ते कृत्वा मानुषं रूपं, मानुषम् रूपम् वानरकामरूपिणः पद्य पर्यपृच्छन्ति प्ररुष्टा भरतम् ददा अथा ब्रवीद्राजपुत्र सुग्रीवम् वा नरशभम् परिष्वज्य महतेजा भरतो धर्मिणाम् वरः त्वमस्माकम् चतुर्णाम् वै भ्राता सुग्रीव पञ्चमः सौहृदा जायते मित्रम् अपकारोरिलक्षणम् विभीषणम् च भरत सान्त्ववाक्यम् बथा ब्रवीत् दृष्ट्या त्वया साहाय्येन कृतं कर्म सुदुष्करम् शत्रुघ्नश्च तदा रामम् अभिवाद्य स लक्ष्मणम् सीतायाश्चरणो वीरो विनयादभ्यवादयत् रामो मातरमासाद्य विवरणां शोककर्षिताम् जग्राह प्रणतपादो मनो मातुः प्रह अभिवाद्य सुमित्रां कैकेयीं च यशस्विनीं स्वमातृश्च तथा सर्वा पुरोहितम् स्वागतं ते महाबाहु कौसल्यानन्द इति प्राञ्जलयः सर्वे नागराराममब्रुवन् तान्यञ्जलि सहस्राणि प्रगृहीतानि नागरी व्याकोशानिव पद्मानि ददर्श भवताग्रजः दुकेते तु रामस्य गृहीत्वा भरत स्वयम् चरणाभ्याम् नरेन्द्रस्य योजयामास धर्म वीत् अब्रवीत् च तदा रामम् भरतः स कृशाञ्जलिः एतत् मया अद्य जन्म कृतार्थम् मे राजानम् अयोध्यां पुनरागतम् अवेक्षतां भवान् कोशं कोष्ठागारम् गृहम् बलम् भवते तेजसा सर्वम् कृतम् दश गुणम् मया तथा ब्रुवाणम् भरतम् दृष्ट्वा तम् भ्रातृवत्सलम् मुमुचूर्वानराबाष्पम् राक्षसश्च विभीषणः तथा प्रशाद्भरतम् अङ्कम् आरोप्य राघव ययुतेन विमानेन ससैन्यो भरताश्रमम् भर्ताश्रममासाध्य ससैन्यो राघवर्तदा अवतीर्य विमानाघ्रा अवतस्थे महीतले अब्रवीतु तद्विमानं तद्विमानम् अनुत्तमम् वः वैश्रवणम् देवम् अनुजानामिगम्यताम् ततो रामाभ्यनुज्ञातम् तद्विमानम् अनुत्तमम् उत्तराम् दिशमुद्दिश्य जगामये धनदालयम् विमानम् पुष्पकम् दिव्यम् सङ्गृहीतम् तु राक्षसा अगमा धनदं वेगात् रामवाक्ये प्रचोदितम् पुरोहितस्यात्मसखश्च राघवो बृहस्पते चक्रैव मराधिपे निपेड्य पादोपसगासनेषु भे सहैव तेनोपविवेश विर्यवान् इत्यार्थे श्रीमद् रामायणे वाल्मीकी अधिका अधिकारे युद्धकाण्डे सप्तविंशति अधिकशततमसर्गः श्रीसीतारामचन्द्रार्पणमस्थु